प्रवाचिका सुषमा कुमारी केन्द्रीय मन्त्रिमण्डलेन कृषकेभ्य व्ययराशि प्रदात् शर्करां मेल समवायानां कृते क्टकमेकम् अधिस्वीकृतम रिजर्व बैंकेन रेपोदल पञ्चविंशति पणकात् षड् दशमलव पञ्चविंशति प्रतिशन्मित् उच्चै घोषिता प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् लघ् नगराणि ग्रामाश्च स्टार्टअप उद्यमानां जीवन्त केन्द्ररूपेण विकसन्ति अपि च सेनया जम्मूकश्मीरे क्पवाड़ा जनपदे सशस्त्र अवैध प्रवेशरता त्रय आतंकिन केन्द्रीय मन्त्रिमण्डलेन शर्करा मिल समायानां कृते प्टकमेकमभिस्वीकृतम् येन रोक्त मुद्राणाम् अपचयन समस्या सम्मुखीकृता मिल कृते देयराशि निवारणं सुनिश्चितं भवेत नवदिल्ल्यामद्य प्रधानमन्त्रिण नरेन्द्रमोदिन अध्यक्षतायां मन्त्रिमण्डलीयोपवेशनानन्तरं उच्चस्तरीय सूत्रै वार्तयं सूचितास्ति रिजर्व बैंकं बैंक वर्तमान आगामि वर्षाय च स्वीय मासिक मौद्रिक नीत्या घोषणा विहितास्ति रिजर्व बैंक रेपोदर पञ्चविंशति पणकात् षड् दशमलव पञ्चविंशति प्रतिशन्मित उच्चै घोषितास्ता वार्ताहर यत् बैंकस्य गवनर उर्जित पटेलस्य अध्यक्षतायां मौद्रिक नीति समित्या त्रि दिवसीयोपवेशनं विहितमस्ति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् प्रशासनं दर्शि युवा उद्यमिन अग्रसरत् बहवोपाया विधीयता नमो एप् माध्यमद्य अशेष जगत स्टार्ट अप उद्यमिभि नवसृजनकर्तृभि यूनै सह समवदन श्रीमोदिना प्रोक्तं यत् स्टार्टअप समवाया दर्ष लघ् बृहद् ग्रामष्वपि जीवन्त केन्द्ररूपण विकसन्ति प्रधानमन्त्रिणा प्रोक्तं यत् मिक इन इण्डिया समं डिजाइन इन इण्डिया अपि स्टार्ट अप समवाय महत्वपूर्ण विद्यत तोदीरितं यत् क्षत्र उत्कृष्टत्वम् अधिगन्त् पर्याप्त धनसाहस जनानां योजना अपि महत्वपूर्ण विद्यता प्रधानमन्त्रिणा य्वजनभ्य कृषिक्षिमूल परिवर्तनाय नवविचारै सह आह्वानं कृतम् तोदीरित यत् प्रशासन इण्डिया एक्शन प्लान इति नाम स्टार्ट अप योजना अपि समारब्धा स्टार्टअप समवायेभ्य धन उपलब्धं प्रशासनेन दश सहस्र कोटि रूप्यकाणां निधि विनिर्मितास्ति प्रधानमन्त्रिणा छत्तीसगढे उद्यमिभि सम्भाषणमपि विहितम् इत प्राक् तेन प्रधानमन्त्रि आवास योजना प्रधानमंत्री उज्ज्वला योजना प्रधानमन्त्रि मुद्रा योजना लाभार्थिभि नमो एप् माध्यम सम्भाषणं कृतमस्ति जम्मूकश्मीर क्पवाड़ा जनपदे मत्सलक्षेत्रे नियन्त्रणरेखाया पार्श्वे सैन्यजनै त्रय सशस्त्र अवैध प्रयासरता जना हा मारिता भारतीय सीम्न तां प्रयास विफलीकृत प्रवक्त्रा प्रोक्तं यत् अवैध प्रवेशं प्रारब्धं भारतीय सिया कस्यापि क्षत सूचना नाधिगतास्ति मारितै आतंकिभि आयुध अपि अधिगतास्ति महिला बाल विकास मन्त्रिणा मेनका गान्धिना प्रोक्तं यत् तदीय मन्त्रालयेन ना महिलानां अपराधेभ्य मोचयित् अनेके उपाया विहिता नवदिल्याम अद्य गत चत्र्ष् वर्षेष् स्विय मन्त्रालयीय उपलब्धीनां विषये वार्ताहर सम्मेलने प्रवदन् तयोदीरितं यत् आपत्काले सहायतायै ए अष्ट एक, एक इति संख्यया तया प्रत्येकस्मिन् राज्ये सम्पलब्धा वर्तते तया प्रोक्तवती यत् प्रवासी भारतीय महिलानां समस्या समाधात् प्रशासनं समन्वितरीत्या सहायतां प्रददाति कर्णाटक कर्णाटक राज्य मुख्यमन्त्रिण एच डी कुमारस्वामिन नेतृत्वयुतस्य संयुति प्रशासनस्य अद्य विस्तारो जात तत्र राज्यपालेन वज्भाई राजभवने नूतना पञ्चविंशति मन्त्रिण पद गोपनीयतायै प्रतिज्ञापिता चतुर्दश कांग्रेस नव जनता दल सेक्य्लर समाज पार्टी कर्णाटक प्रज्ञानवंता जनता पार्टी दलात वर्तन